गन्तव्यः मार्गः कस्मिंश्चित् ग्रामे कश्चन पुरुषः वसति स्म तस्य गृहे द्वौ मृद्घटौ आस्ताम् एकस्मिन् दिने तौ घटौ दुग्धेन पूर्णौ आस्ताम् गृहस्वामी बहिः गतवान् आसीत् सः यदा प्रत्यागतवान् तदा प्रथमघटस्थं दुग्धं तम् अवदत् भोः स्वामिन् मां सुवर्णकुम्भे स्थापयतु इति गृहस्वामी तद् दुग्धं सुवर्णकुम्भे स्थापितवान् द्वितीयघटस्थं तु दुग्धं किमपि न अवदत् अतः तत् मृत्कटे एव आसीत् किञ्चित् समयानन्तरं स्वामी क्षीरस्य उष्णीकरणाय अग्निं ज्वालितवान् तदा सुवर्णकुम्भे विद्यमानं दुग्धम् अवदत् माम् उष्णं न करोतु यतः तेन मम व्यक्तित्वमेव नष्टं भवति इति स्वामी तद् न उष्णीकृतवान् मृद्घटस्थेन दुग्धेन तु किमपि न उक्तम् स्वामी तद्दुग्धम् उष्णीकृतवान् दुग्धं वेदनया शनैः रोदनम् अकरोत् तद्दृष्ट्वा सुवर्णकुम्भस्थं क्षीरम् उच्चैः अहसत् यदा दुग्धं शीतलं जातं तदा स्वामी आतञ्चनार्थं तक्रम् आनीतवान् तद्दृष्ट्वा सुवर्णकुम्भस्थं क्षीरम् आज्ञापयत् भोः स्वामिन् मयि तक्रं न योजयतु इति स्वामी मृद्घटस्थस्य दुग्धस्य एवम् आतञ्चनं कृतवान् इदानीं तस्य दुग्धस्य रुचिः वर्णः च अपगतौ एतत् दृष्ट्वा सुवर्णकुम्भस्थं दुग्धं तस्य उपहासं कुर्वत अवदत् हे मूड माम पश्यतु मम वर्णं पश्यतु मम रुचिं जानाति वा अहम् इदानीमपि उत्तमं दुग्धम् एव भवतः वर्णः नास्ति रुचिरपि नास्ति ह ह ह इति अनन्तरदिने आगतः स्वामी मथनार्थम् उद्युक्तः अभवत् सुवर्णघटस्थस्य दुग्धस्य कथनात् पूर्वमेव सः मृद्घटस्थस्य दुग्धस्य मथनम् आरब्धवान् मथनसमये नवनीतम् उपरि उपरि आगतं तस्मिन् समये सुवर्णकुम्भस्थं दुग्धं तु दुर्गन्धपूर्णम् आसीत् मथनं समाप्य स्वामी नवनीतं स्वीकृत्य संतोषेन, समीपस्थं मन्दिरं गतवान् तत्र नवनीतेन ईश्वरस्य शरीरं, अलङ्कृतवान् भक्त्या तं नमस्कृत्य ततः गृहं आगतवान् च यदा द्वारस्य उद्घाटनं कृतं तदा गृहे सर्वत्र दुर्गन्धः व्याप्तः आसीत् स्वामी अन्तः आगत्य दुर्गन्धस्य कारणं किमिति ज्ञातवान् कोपेन क्रिमियुक्तं दुर्गन्धपूर्णं च तत् सुवर्णकुम्भस्थं दुग्धं गृहात् दूरं नीत्वा अत्यधिक युक्ते स्थाने निर्व्यामोहं क्षिप्तवान् सुवर्णकुम्भं च प्रत्यानीय सम्यक् प्रक्षाल्य स्थापितवान्